सम्भाषणसन्देशः टु तौसण्ड् सिक्स्टीन् मासस्य मासपत्रिका बालमोदिनी कश्चन सज्जनः आसीत् सः ग्रामं ग्रामं गच्छन् जनानां सेवां करोति स्म कदाचित् प्रयाणसमये मार्गे घोरः चक्रवातः समुत्पन्नः ततः आत्मनः रक्षणाय प्रयतमानः सः सज्जनः बहुधा प्रयत्नं कृतवान् तथापि तेन साफल्यं न प्राप्तम् तावता कश्चन कृषिकः तदीयाम् दुरवस्थाम् अपश्यत् सः धैर्येण अग्रे आगत्य तम् सज्जनम् चक्रवातात् अरक्षत् प्राणापायमपि अविगणय्य रक्षणरूपम् उपकारं कृतवतः कृषिकस्य परोपकारस्वभावं दृष्ट्वा सः सज्जनः नितराम् सन्तुष्टः सः कृतज्ञतापूर्वकम् तस्य कृषिकस्य हस्तौ स्वहस्ताभ्याम् गृहीत्वा अवदत् महोदय अद्य समये आगत्य भवता मम प्राणानाम् रक्षणम् कृतम् महती परोपकारशीलता भवतः मया विशिष्टम् किमपि न कृतम् अपाये स्थितवतः रक्षणं मनुष्यमात्रस्य धर्मः तदेव मया कृतम् अत्र विशेषता कापि नास्ति कृषिकः अवदत् एतद्भवतः गुणवत्ताम् द्योतयति यदि भवान् न आगमिष्यत् तर्हि अहम् प्राणैः वियुक्तः अभविष्यम् निश्चयेन अपायमपि अपरिगणय्य अन्यस्य प्राणरक्षणाय उद्यमह किं सामान्यं कार्यम् सर्वथा न भवते विशिष्टं किमपि पारितोषिकं दातुमिच्छामि भवतः नाम किम् ग्रामः कः इत्यादिकं वदतु भवान् अचिरात् एव तव गृहमागत्य पारितोषिकं दास्यामि सज्जनः अवदत् श्रीमन् किं पारितोषिकदानप्रस्तावेन लोके ये वृक्षाः सन्ति तेषाम् आरोपयितारः किम् पारितोषिकप्राप्तेच्छया कार्यम् कृतवन्तः मार्गादयः यैः निर्मिताः ते किम् पारितोषिकेच्छया किम मार्गम् निर्मितवन्तः किम् सूर्यः वायुः जलम् इत्यादयः पारितोषिकेच्छया कार्यम् कुर्वन्ति न खलु तादृशेभ्यः पारितोषिकदानम् न चिन्त्यते केनचिदपि कष्टे स्थितस्य रक्षणे उद्यमः मानवमात्रस्य कार्यम् तत् मया कर्तव्यबुद्ध्या कृतम् न तु पारितोषिकप्राप्तिच्छया एतादृशकार्यात् यत् पुण्यम् प्राप्येत तदेव अलम् मम इति उक्त्वा ततः प्रस्थितवान् सः कृषिकः गच्छन्तम् तम् पश्यन् सज्जनः मनसि एव अवदत् भोः महात्मन् भवादृशानाम् सङ्ख्या लोके धर्म भावना अभिवर्धता भवादृशावे कथा